श्रीमद्भागवत् महापुराणम् एकादशी स्कन्ध अथ त्रिंशोऽध्यायः यद् कुल्कासंहार महाभागवत उद्धवे निर्गते वनं द्वारवत्यां किम् अकरोद्भगवान् भूतभावनः ब्रह्मसापोपसंसृष्टेष्वकुले यादवर्षभः प्रेयसीं सर्वनेत्राणां तनुं स कथमत्यजद प्रत्याक्रष्टुं न मबला यत्र लग्नं न शोकुः कर्णाविष्टं न शरति ततोऽयं सतामात्मलग्नम् यच्छवाचां जनयति रतिं किं नुमानं कवीनाम् दृष्ट्वा जिष्णोर्युधिरसगतं यच्च तत्साम्यमेयुः ऋषिरुवाच दवे भव्यन्तरिक्षे च महोत्पातान् समुत्थितान् दृष्ट्वा शीरान् सुधर्मायां कृष्ण प्राहयतो निदम् एते घोरा महोत्पाता द्वारवत्यां पि न स्थेयम् अत्र नो यद् पुङ्गवाः श्रियो वयं प्रभासं जास्यामो यत्र प्रत्यक्सरस्वती तत्राभिषिच्य सूचय उपोष्य सुसमाहिताः देवता पूजयिष्यामः स्नपनालेपनार्हणैः ब्राह्मणासु महाभागान् कृतस्वस्तेना वयं गोभूहिरण्यवासोभिर्गाश्वरन्वेश्मभिर्विधिरेशरिष्टघ्नो मङ्गलाय नमुत्तमं देवद्विजगवां पूजा भूते सु परमो भव इति सर्वे समाकर्णसद्वृद्धा मधुर्विषः तथेऽपि नोऽभिरुत्तिर्य प्रभासं प्रयौरथैः तस्मिन् भगवता दृष्टं यद् देवेन यादवाः चक्रुपरमया भक्त्या सर्वश्रेयोपविहितं ततस्तस्मिन् महापानं प्रपुरयिं प्रपुर्मैरेयकं मधु दृष्टविभ्रंसितधियो यद्रवैर्भ्रंशते मतिः महापानाभिमत्तानां वीराणां दीप्तचेतसां कृष्णमायाविमूढानां वी सङ्घर्षशुमहानभून् योधु क्रोधसंरब्धा बेलायामाततायिनः धनुर्भिर्षभिर्मल्लैर्गदाभिः स्तोमरष्टिभिः पतत्पताकैरथकुञ्जरादिभिः करोट्रगोभिर्महिषैर्नरैरपि मिथसमेत्यातरैः सुदुर्मदा नहच्छरैतभिर्विर्दिपावले प्रद्युम्न साम्भो यधिरूढमश्सरा वक्रूरभोजावनिरुद्धसात्यके सुभद्रसङ्ग्रामजितौ सुदारुणौ गदौ सुमिद्रा सुरथौ समीयतो अन्ये च ये वै निसृषों निसृषोल्मुकादयः सहस्रजिच्छिन् भानुमुख्याः अन्यो नमाशाद्य मदान्धकारिता जग्मुकुन्देन विमोहिताभिषं दासार्हविष्ण्यन्धकभोजसात्त्वता मध्वर्बुदा माथुरसूर्यसेनाः विसर्जना कुकुराकुन्तयश्च वितस्ततेथं विसृज्य श्रोषितम् पुत्रा अयुध्यन् पितृभिर्भ्रातृभिश्च स्वस्त्रियां द्यदोहेत्रपितृभ्यमातुलैर्मित्राणि मित्रैः सुद सुहृद्भिर्ज्ञाति हज्ञात एव मूढाः शरेषु षू शरेषु क्षीयमाळेषु भजमानेषु धन्वषु शस्त्रेषु क्षीयमालेषु मुष्टिभिर्जौह्वरेरकाः तावद्रकल्पां च भुवन्परिघामुष्टिना कृष्णेन वार्यमाणाश्रुतं च ते प्रत्यनेकं मन्यमाना बलभद्रं च मोहिताः हन्तुं कृतधियो राजन्नापन्ना आततायिनः अथ तावपि संक्रुद्धा उद्यम्य एरकामृषिपरिघौ चरन्तौ जग्तुर्यधे ब्रह्मसापोपशिष्टानां कृष्णमायावृतात्मनां स्पर्धा क्रोधक्षयं निन्ये वैष् वैणवोऽग्निर्यथावनम् एवं नष्टेषु सर्वेषु कुलेषु श्वेषु केशवः अवतारितो भुवो भार इति मेनेवशेषितः राम रामसमुद्रवेलायां योगमासाय पौरुषं तत्याजलोकं मानुष्यं संयोज्यात्मानमात्मने रामनिर्याणमालोक्य भगवान् देवकीसुतः दिससादधरोपस्थे तृष्णीमाशाद्यपि पिप्पलं बिभ्रच्चतुर्भुजं रूपं भ्राजिष्णुप्रभया श्वयाम् दिशो विति मिराकुर्वन् विधूम इव पावकः श्रीवत्साङ्कं घनश्यामं तप्तहाटकवर्चसं कोशेयाम्बर्युग्मेन परिवीतं सुमङ्गलम्